नारदपुराणं पूर्वार्थम् अध्यायं फिफ्टि एय्ट् नारद उवाच अनूचानप्रसङ्गेन वेदाङ्गान्यखिलानि च श्रुतानि त्वन्मुखाम्भोजात्समासव्यासयोगदः सुखोत्पत्तिं समाचक्ष्व विस्तरेण महामते सनातन उवाच मेरूंगे किल पुरा कर्णिकार वनाये विचहारो दौमयी भूदगण शैलराजसुदा चेवी तत्रुरा त्र दिव्य तपस्ते पे पायन प्रभु योगेनात्मानमाविश्य योगधर्मपरायणः धारयन् स तपस्ते पे पुत्रार्थं सुनिसप्तमा सुनिसप्तमः अग्नेर्भूमेस्तदावयोरन्धरिक्षस्य चाभिधः वीर्येण सम्मदपुत्रो मम भूयादिति स्मः सङ्कल्पे नाथ सोनेन दुष्प्रापमककृदात्मभिः परयामास देवे शमास्तितस्तप उत्तमम् अधिष्ठन्मारुताहारशतं किल समा प्रभुः आराधयन्महादेवं बहुरूपमुमापतिं तत् स्रब्रह्मष देवस्त लोकपालाध्या वसुभा सह आदिश्चद्राश्च दिवाक विश्वा वसुश्च गंधर्व सिद्धाश्चा सरा सा तत्र रुद्रो महादेवकर्णिकारमयीं शुभां धारयानस्रजम्भादिशारदीवनिशाकरः तस्मिन् दिव्येवनिरम्ये देवदेवर्षि सङ्कुले आस्थितपरमं योगं व्यास पुत्रार्थमुद्यतः न चास्य कियदेवर्णो नग्लानिरुपजायते त्रयाणामपि लोकानां तदद्भुतमिवाभवद जडांश्च तेजसा तस्य वैश्वानरशिखोपमाः प्रज्वलन्त्यस्म दृश्यन्ते युक्तस्यामिद तेजसः एवंविधेन तपसा तस्य भक्त्या च नारद महेश्वरप्रसन्नात्मा चकारमनस्सा मतिम् उवाच चैनं भगवान् स्त्रि अम्बकः प्रहसन्निव यदा ह्यग्नि यथा वायुर्यथा भूमिर्यथा जलं यथा खे च तथा शुद्धो भविष्यति सुधस्तव तद्भावभागी तद्बुद्धिस्तदात्मा तदुपाश्रयः तेजसा तस्य लोकां स्त्रीन् यशः प्राप्स्यदि केवलं एवं लब्ध्वा वरं देवो व्याससत्यवधिसुधा अरण्यं त्वत्संगृह्य मां धाग्निचिकीर्षया अधरूपं परं विप्रबिभ्रतीं स्वेन तेजसा कृताचीं नामाप्सरस्सं ददर्श भगवान् ऋषिः स ता मत्सरसं दृष्ट्वा सहसा काममोहितः अभवद्भगवन्व्यासो वने तस्मिन् मुनीश्वर साधु कृत्वा तदाव्यासं कामसंविघ्नमानस्सं सुखी भूया महारम्या कृता चेत् समुपागमद स तामसरस प्सरसं दृष्ट्वा चूपेणान्येन संवृतां स्मरराजेनानुगतसर्वगात्रादिगेनः सदुमहदा निगृह्णन् हृच्छ्रयं मुनिः न शशाकनियं तुं तं व्यासप्रविहृतं मनः भावित्वाञ्चैव भाव्यस्य कृताच्या वपुषा हृदं यत्नान् नियश्चतश्चापि मुने येदञ्चिकीर्षया अरण्या मे वसहसा तस्य शुक्रमवापतत् शुक्रे निर्मध्यमानेश्यां शुकोचज्ञे महातपः परमर्षिर्महायोगी अरणिगर्भसम्भवः यथैव हि समिद्धोऽग्निर्भाधिहव्यमुपातवान् तदरूपसुखो जज्ञे प्रज्वलन्निव तेजसा बिभ्रञ्चित्रं च विप्रेन्द्ररूपवर्णमनुत्तमं तं गङ्गां सरिदां श्रेष्ठां मेरुपुष्ठे स्वरूपिणीम् अभ्येत्य स्नापयामास वारिणा स्वेन नारदा कृष्णाजिनं चान्दरीक्षाच्छुकार्थे भुव्यवापदद जगीयन्त जगन्धर्वान्ननृताञ्चाप्सरोगणाः देवदुन्दुभयश्चैव प्रावाद्यन्तमहास्वनाः महास्वनाः वसुश्च गन्धर्वस्तधातुम्बुरु नारदौ हाहाहुहुश्च गन्धर्वौ तुष्टु तत्र शक्रभुरोगश्च लोकपालास्समागतः देवादेवर्षधयश्चैव देवादेवर्षधयश्चैव तथा ब्रह्मर्षयोऽपि दिव्यानि सर्वपुष्पाणि प्रववर्षजमायुधः जङ्गमं स्थावरं चैव प्रकृष्टमभवज्जगत् तं महात्मा स्वयं प्रीत्या देव्या सह महाद्विधिः जातमात्रं मुने पुत्रं विधि नो पानयत्तदा तस्य देवेश्वरशक्तो दिव्यमद्भुतदर्शनं ददौ कमण्डलुं प्रीत्या देवा वासां सिचाभिधः हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः प्रदक्षिणामवर्तन्तशूकाश्चाश नारद आरणे यस्तदा दिव्यं प्राप्य जन्ममहामुनिः तत्रैवो वासमेधावीव्रतचारीसमाहितः उत्पन्नमात्रं तं वेदा ससंग्रहाः उपतस्तुर्मुनिश्रेष्ठं यथास्य पितरं तथा बृहस्पतिं सव्रे च वेदवेदाङ्गभाष्यविद उपाध्यायं द्विजश्रेष्ठधर्ममेवानुचिन्तयन् शोधीत्य वेदानखिलान् सरहस्यान् सङ्ग्रहन् इतिहासं च कास्न्येन वेदशास्त्राणि चाभ्यः गुरवे दक्षिणां दत्वा समावृतो महामुनिः उग्रं तपःसमारेभे ब्रह्मचारी समाहिताः देवतानां ऋषीणां च बाल्येऽपि सुमहातपः सम्मन्त्रणीयोजन्यश्च ज्ञानेन तपसा तथा न त्वस्य रमदे बुद्धिराश्रमेषु मुनीश्वर त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः समोक्षमनु स्युकः पितरमभ्यगाद् प्राहाभिवाद्य च तदा श्रेयोर्धिविनयान्विदः मोक्षधर्मेषु कुशलो भगवान् बब्रवीदु यद्यैव परमा शान्तिपरमसम्भवेन्मुने श्रुत्वा पुत्रस्य वचनं परमर्षिर्वाचदम् अधिष्वमोक्षशास्त्रं वै धर्मांश्च विविधानपि पिदुर्निदेशा जग्राहशुको ब्रह्मविदाम्बरः योगशास्त्रं जनखिलं काकिलं चैव नारदा शतं ब्रह्म्या श्रियायुक्तं ब्रह्मतुल्यपराक्रमम् मेने पुत्रं यदा व्यासो मोक्षशास्त्रविशारदम् उवाजगच्छति तदा जनकं मिथिलेश्वरं सदैवक्ष्यति मोक्षार्थं निखिलेन नराधिपः पिदुर्नियोगादगमज्जनकं मेदखिलं नृपं प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् उक्तस्य मानुषेण त्वं तदा न प्रभावेण गन्तव्यमन्तरीक्षरेण वै आर्जवे नसुखायक्षणात्वया गन्तव्यं न सुखायक्षणा त्वया न द्रष्टव्या विशेषा हि विशेषा हि प्रसङ्गिनः अहङ्कारो न कर्तव्यो याज्येतस्मिन्नराधिवे साधव्यं सा संशयम् स धर्मकुशलो राजा मोक्षशास्त्रविशारदः यथा यथा च देब्रूया तत्कार्यमविशङ्गया एवमुक्त स धर्मात्मा जगाम मिथिलां मुनिः पद्भ्यां चक्रोऽन्तरिक्षेण क्रान्तुं भूमिं ससागरां स गिरीं चाप्यतिक्रम्य भारतं वर्षमासद सदे सान्विधान् स्वेदानधिक्रम्य महामुनिः विदेहान् वै समासाध्य जनकेन समागमद राजद्वारं समासाध द्वारपालैर्निवारितः तत्तौ तत्र महायोगे शोद्विपासादिवर्जितः आदपेग्लानिरहितौ ध्यानयुक्तश्च नारदा तेषां दुर्वारपालानामेकस्तत्र दृष्ट्वा सुखमवस्थितं जो जयित्वा यथा न्यायमभिवाद्य कृताञ्जलिः प्रावेशयत्तदः कक्षां द्विधीयां राजवेश्मनः तत्रान्तपुरः सम्बद्धं महच्चैत्रोपमं सुविभक्तजला क्रीडं रम्यं पुष्पितपादपं दर्शयित्वा सने स्थाप्य राजानं च श्रुत्वराजा शुकं प्राप्तं वारस्त्रीसन्ययुक्त सेवायैतस्य भावस्य ज्ञानाय मुनिसत्तमस्तं चारुक्यस्य शुश्रेण्यस्तरुण्यप्रियदर्शनाः सूक्ष्मरक्ताम्बरधरस्तप्तकाञ्चनभूषणः संलापालापकुशलाभावज्ञा सर्वकोविदाः परम् पं चाश्च तस तस्तस्य पाद्यादीनि व्यकल्पयन् देशे कालोपपन्नेन साध्वनेनाप्यदर्पयन् तस्य भुक्तवदस्तद तास्ततः पुरकाननं सुरम्यं दर्शयामासुरेकैकत्वेन नारद क्रीडं त्यश्च हर्षं त्यश्च गायं त्यश्चैव उदारसत्त्वं सत्त्वज्ञा सर्वा पर्यचरंस्तदा आरण्ये यस्तु शुद्धात्माजिदक्रोधो जिदेन्द्रियः ज्ञानस्त एव सततं न पश्यति न गुप्यति पादशौचं तु कृत्वा वै सुखसन्ध्यामुपश्यत निशसादासने पुण्ये तमेवार्थं पूर्वरात्रे तु तत्र सौ भूत्वा ध्यानपरायणः मध्यरात्रे यथा निद्रा, निद्रामाहारयत् प्रभो तद प्रातसमुद्धाय कृत्वा शौचमनन्तरं स्त्रीभिपरिवृत्तो धीमान् ध्यानमे वान्यत अनेन विधिना तत्र तदह शेषमप्युद तां च रात्रं श्री बृहारुराणे पूर्वभागे बृहदुपाख्याय भागे नामाष्ट पंचाशत्तम ओं